सर्वेषां स्वागतं नमो नमः नमस्कारः वीणा भगिनी नमो नमः नमा... नमो नमः भगिनी नमो नमः सर्वेभ्यः नमस्कारः प्रार्थनया आरम्भं कुर्मः वा प्रार्थनां वदति हा भगिनि अवश्यं वदतु शुक्लाम् मरदरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्याये सर्वविघ्नोपशान्तये सरस्वति नमस्तुभ्यम् भरदे कामरूपिणि विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे सदा सान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गदनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तं कमलनयनं योग्यहृद्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् हरिः ओम् श्रीकृष्णाय नमः नमस्ते बेनि नमस्कारः अस्तु स्वागतम् पुनः एकवारम् अस्माकं विषयः गतपक्षे उपसर्गाः इति अस्माकं विषयः तत्र वयं संशयात्मा विनश्यति पाठस्य नाम तत्र वयं दृष्टवन्तः उपसर्गा उपसर्गाः के उपसर्गान् योजनेन कथं क्रियापदस्य रूपपरिवर्तनं भवति अर्थपरिवर्तनं भवति कथम् उपसर्गस्य योजना लकारे भवति लट्लकारे भवति तव तु प्रत्ययन्तरूपाणि सन्ति चेत् कथं रूपं निष्पद्यते एवं सर्वं वयं दृष्टवन्तः तथैव संशयात्मा विनश्यति इति शीर्षकस्य आधारेण वयं कथायाः वाचनमपि कृतवन्तः अधुना वयं किं कुर्मः समानः एव विषयः अवशिष्टः भागः अस्ति तत् भागं स्वीकृत्य वयम् उपसर्गविषयकः एव अध्ययनं कुर्मः अस्तु नूतनतया तत् रमा भगिनी अस्तु भगिनि नमस्ते भगिनि रमा भगिनी नमो नमः नमस्ते, नमस्ते, नमस्ते, नमस्ते अधुना पुस्तकम् उद्घाटयामि पुस्तकं प्रति गच्छामः istakat eh kanemis. Hmm. Hmm. Pasca tu ah uh... Nabati स्क्रीन् दृश्यते वा एतत् सर्वं वयं कृतवन्तः एतत् अपि अभवत् अतः आरभ्य उपसर्गयुक्तैः लङ्लकाररूपैः वाक्यानि पूरयत इति एकः प्रश्नः अनन्तरमस्ति तव तु प्रत्ययान्तरूपैः पुल्लिङ्गे वाक्यरचना तदस्ति अवशिष्टः भागः उपसर्गे विषयकः अस्तु हा भारतमहोदय भवान् पठति वा भवान् षड्वादन सार्धषड्वादनपर्यन्तम् एव अस्ति इति खलु अस्तु भवानेव आरम्भं करोतु उपसर्गयुक्तेः लङ् लङ्काररूपै वाक्यानि पूरयत पाण्डवाः अग्नात् वासात् आगच्छन् आयोगम् आग, आगच्छन् का न, नहीं। नहीं। हा अत्र पश्यन्तु यत्र स्थितिका वास्तविकरूपेण तत्र भूतकाले पांडवा इति बहुवचनान्तप्रदं तद्भूतकाले तत अगच्छन् इति भवति हा एकवचनान्तरूपमस्य अगच्छत् बहुवचनान्तरूपमस्य अगच्छन् परन्तु अगच्छन् तस्मात् प्राक् आ इति उपसर्ग अतः अन्तिमतः रूपं किं निष्पद्यते आगच्छन् अग्रिमे सेना सेना सेनापतिम् अनु श्रुतन् सेनापति अनु श्रुतन् अधुना क्षम्यताम् अत्र पश्यन्तु अनु अनु अस्ति हाँ स्रुधा स्रृ इुक् गै स्रु सरती लट्ल स्रृ सरती लट्लकार अजुना सेना स्त्रीलिंग एकवचना एक वचनमस्ती अतः तूतकाल असर हाँ लूप अजुना लट्लकार वर्तमान विषय न भूतकाला ला तत् श्रु इत्यस्य भवति असरत। अस्तु okay. असर यदा लङ् लकाररूपस्य योजनां कुर्मः तदा अ इति तत्र अहम् उक्तवती आसम् तदेकं सुक्रमसि लुङ् लङ् लुङ् षडुदात्त अनेन तत् अ आगच्छति सर्वेषु स्थलेषु प्रिफिक्स् इति रूपेण तत् अ आगच्छति अधुना असरत् रूपम् अधुना अनु अधिक असरत् किं भवितुमर्हति अत्र लिखामः भारतमहोदय हा, हा अनु इति उपसर्गः अस्ति अनु उपसर्ग रूपं भवति अवसरत् अधुना चिन्तयतु किं भवितुमर्हति अनु अधिक असरत् अन्तिमवर्णः कः योग्य अधुना किं भवितुमर्हति उ अधिक संधि यणसन्धिविषये स्मरति वा यणसन्धि तत्र किं भवति इ अस्ति चेत् य भवति okay. उ अस्ति चेत् व भवति इति अधिक आदि इत्यादि Mm -hmm. इति अधिक आदि इत्यादि अधुना उ व भवति इत्युक्ते भवति उकारस्थाने व अन्व तेन किं भवति अन्वसर इति रूपम् अन्वसर सेना सेनापतिम् अन्वसरत् अनुसरत् अनु अनुसरति अनु इत्युक्ते फालोयिङ्ग् हा सेनापति तत्र प्रमुखतया सेनापतिरूपेण यः कोऽपि अस्ति सः अग्रे चलति सेना तस्य अनुकरणं करोति अनुसरति भूतकाले <laughs> का सेनापति अग्रिमे अगच्छत् अन्वसरत् सेना अन्वसरत् अस्तु अत्र पुनः yeah. एकवारं यणसन्धिविषये एकवारं पुनः वदामि यणसन्धि इत्युक्ते किं तत्र यदि शक्यते चेत् सूत्रं वयं स्मराम इको यणचि इति अस्ति इको यणचि इति तत्र इक इक इत्युक्ते इ उ तस्य स्थाने यण् यण् इत्युक्ते य र, ल. य ल. क्षम्यता वरलन्तमस्ति अत्र आदेशरूपेण हा तत् इति अधिक आदि अत्र किं करणीयं भारतमहोदय तत, भारत तत सामान्यतया यानि उदाहरणानि सन्ति उदाहरणानि तत् यदा मया उक्तम् अधुना इत्यादि इति अधिक आदि इत्यादि हा तत् सामान्यानि उदाहरणानि स्मरणे यदा वारं, वारं स्मरामः तदा वयं ज्ञातुं शक्नुमः तत् ईय भवति उव भवति रुर भवति लृल भवति भवति इत्युक्ते आदेशरूपेण इस्थाने यकार उस्थाने वकार रुस्थाने रणकार रेफ इति व्याकरणदृष्ट्या रेफ् इति वदामः ऋस्थाने रेफ् भवति लृस्थाने ल भवति इति विषयः hmm. अतः अनुअधिक असरत, अधिक इति रूपं निष्पद्यते अग्रे okay. अग्रे yeah. पश्यतु yeah. किमस्ति सेनासेनापतिम् अन्वसरत् करेक्ट् उत्तमम् अग्रिमे द्रोणाचार्यः शस्त्रं निक्षि निक्षित् निक्षित् निक्षित् अत्र पश्यन्तु अत्र खासीति नि अधिकक्षिप क्षिप अधुना प्रथमता चिन्तनं किपति इति लट्लकारे किपति mm -hmm. इति लट्लकारे मध्यम प्रथमपुरुषे एकवचन भूतकाले किं भवति लङ्लकारेक्षिपत् उत्तमम् अक्षिपत् अधुना आग्षिपत. नी अधिक अक्षिपत् किं भवति लिखामः अत्र अधिक अक्षिपत् तेन ई स्थाने किं भवति स्थाने किम् आगच्छति आम् उत्तमम् अतः न यिपत् न्यक्क्षिपत् इति रूपं न्यक् न्यक्क्षिपत् अधुना उच्चारणसमये अत्र पश्यतु एकवारं लिखामि अत्र किं भवति तत्र मूलतः सर्वे सर्वे तत् एकः महत्त्वपूर्ण अंशः तत्र न्यक् हिपत् इति रूपं न्यक्सिपत् यथा भरतमहोदय उक्तवान् तत् उकारस्य यकार न्यक्सिपत् परन्तु उच्चारणस्य मूलतः इति संयुक्त अक्षरः स वर्णमालायां स इति अक्षरः मूलतः नास्ति ह स इति संयुक्त अक्षरः स इत्युक्ते क अधिक यत्र यत्र संयुक्त अक्षर अस्ति तस्य उच्चारणसमये अधुना न्यक्षिपत न्यक्षिपत् इति न कथं तस्य उच्चारणं न्यक् क्षिपत् <SegIFAD> क तत् क इति आघातरूपेण ये जनाः गीतापठनम् एवं सर्वं कुर्वन्ति ते तद् आघातविषये तेषां समीपे अधिकं ज्ञानमस्ति ते स्पष्टतया वक्तुं शक्नुवन्ति तत् न्यक् सिपत् न्यक् सिपत् इति ङ्यप्सिपत् इति न्यक् सिपत् न्यक न्यक okay. uh, उत्तममस्ति अधुना इतोपि एकं करोतु महोदय अग्रिम व्यासः महाभारतं वि योग लिख विलिखत् वि अधिक अलिखत् अलिखत् वि सो तेन किं भवति अलिखत् सो वि इ अ य सत्यं उत्तमम् उत्तमम् अस्ति हा तत्र इ अपगच्छति इस्थाने य आदेशरूपेण आगच्छति अधुना इ इस् तत्र न तिष्ठति एव इस् नो मोर् देयर् नौ इ स्थाने य आदेशः हा तत्र आदेशः कीदृशः शत्रुवत् आदेशः तत्र सम्पूर्णतया इ एतस्य अपगमनमेव भवति तत्र यच्छति य आगच्छति आदेशरूपेण न शत्रुवत् आदेश सो mm. so, व्यलिखत् इति रूपम् उत्तममस्य अधुना पञ्चम तत् अन्तिमं करोतु महोदय अभिमन्युः तत् अभिमन्युः विहात् mm. बहिरागमनम् mm. वि अस्मृत्स्मृ व्यस्मृत् व्यस्मरत् हा तत् व्यस्मरत् योग्यमेव हा किं भवति पश्यन्तु अत्र वि अस्ति स्मृ इति दातु स्मृधातुर् लट्लकारे वयं बदा स्मरति इति स्मरति स्मरति किं भवति रु यत् अस्ति तस्य अर् भवति स्म अर्ति स्मरति अधुना भूतकाले किं भवति अस्मरत् अ तु आगच्छति लङ्लकारे सर्वेषु स्थलेषु अस्मरत् अधिक अस्मरत् इति अभिमन्युः okay. बहिरागमनं तत्र वयं सर्वे जानीमः खलु कथा तत् अस्य अभिमन्यु व्यूहं प्रवेशं कथं करणीयं तत्तु ज्ञातवान् आसी परन्तु बहिः कथं बहिरागमनं सः न ज्ञातवान् स्मृतवान् इति स्मृतवान् एवम् इत्युक्ते तत्र श्रीकृष्ण भगवान् श्रीकृष्णः तत् पाठनम् एव mm -hmm. न भवत् यतोहि तत् गर्भवासे सः आसीत् तस्मिन् समये एव सः तत् ज्ञातवान् कथं प्रवेशं करणीयं परन्तु तद् बहिरागमनं सः न जानाति बहिरा विस्मृतवान् इत्युक्ते व्यस्मरन् इति अस्तु योग्यमस्ति धन्यवादः धन्यवादः अधुना अग्रिमे तत् षट् आरभ्य अगस्ट् महोदये भवान् करोति वा देवः भक्तान् ततः आरभ्य नो नमः भगिनी अस्तु नम्बर् सिक्स् देवः भक्तान् परि अप्पा पर्यपालयत् पर्यपलय बहु सम्यक सक परी अलय पर्यपल सयपालय उत्तम अधुना अश्य परी त उपसर्ग देव सर्वं वह जानी तत् तद् देवः त्राता अस्ति अस्माकं तारयति एतत् परन्तु परि अनेन किं बोधः कः बोधः परि सर्वथा पालनं करोति फ्रम् आल् सैड्स् इति भावः सर्वथा देवः भक्तान् परि पर्यपाल इति पर्यपालयत् परिपालनं करोति इति अस्तु अग्रिमे पठति वा आपः प्राविशत् प्रधिक अविशत् प्राविशत् उत्तमं प्राविशत् प्रवेशम् आपः इत्युक्ते किं महोदय करेक्ट् बहु सम्यक् तत् प्रवेशं कृतवान् तत, आपः प्राविशत् उत्तमम् अग्रिमे श्वरः भक्तानां समस्यां परि परिहर परिहरत् परियहरत् परियहरत् स्पष्टमस्ति अन्येषामपि लिखित्वा द्रष्टुमिच्छन्ति वा अन्यान् स्पष्टमस्ति पर्यहरत् उत्तमम् अग्रिमे अवस्तु महोदय भक्तः प्रा प्रा प्रयत् प्रयच्छत् अधिक अयच्छत् प्रायच्छत् प्रायच्छत् इत्युक्ते किम् अवस्तुमहोदय अयच्छत् इत्युक्ते गिव् इति तत्र पश्यन्तु अत्र भक्तः देवाय देवाय इति विभक्ति का आ, चतुर्थी दा, दाता तत्र दानं करोति चतुर्थी सम्प्रदानम् इत्युक्ते दानं करोति तत्र पुष्पम् अर्पयति प्रायच्छत् अयच्छत् ददाति इति देवाय उत्तमम् अग्रिमे अत्र पश्यन्तु तृ इति अस्ति तत्र पश्यन्तु सर्वे तृ इति दीर्घतृ दीर्घरुकार अस्ति अधुना तृ इति तस्य लट्लकाररूपं तस्य प्रथमं चिन्तनं कुर्याप्त तस्य तरति तृ तरति अत्र सम् अधिक तरति एतस्य लङ्लकाररूपं रूपम् ततस्ति अतरत् अधुना सम् अधिक अतरत् तेन किं भवति सम तरत् सम तरत् समतरत् तरत। इत्युक्ते किं वृजिनम् इत्युक्ते वृजिनः इत्युक्ते दुष्टजनः दुर्जनः समतरत् इत्युक्ते किं नियन्त्रणं कृतवान् ज्ञानीजनाः ये सन्ति अत्र एकः एव ज्ञानीजनः ज्ञानीमनुष्यः दुष्टजनः एतस्य नियन्त्रणं कृतवान् ज्ञानी सर्वज्ञानस्य आधारेण तत्र दुष्टप्रवृत्ति वा दुष्टजना वा दुर्जनः तत्र सः नियन्त्रणं कृतवान् समतरत् ी वृजिनं समतर इति स्पष्टमस्ति धन्यवाद महोदय धन्यवाद अस्तु अग्रिमे तत् जयन्ति भगिनी अग्रिमे करोति वा एकादशतः कृष्णात् सर्वं प्रवृ प्रप्लस् वृत् प्रावृत् प्रावर्त् प्रावर्त प्रा वृभिकं वर् वर्त् प्रावृ सत्यं वर्त् प्रावर्तत इति अत्र okay, प्रावर्तत इति किमर्थं तत्र आत्मनेपदी धातुः अस्ति आम् वर्तते इति वदामः खलु वयम् आत्मनेपदीरूपं प्रावर्तत इति अस्ति कृष्णा सर्वं प्रावर्तत एतस्य अर्थ अर्थ अर्थ अर्थः कः वदति वा शब्देषु एव सर्वं सृजनं करोति इति आम् सर्वं कृष्णात् वर्तते इति सर्वं यत् सर्वमस्ति एतत् जगतः विषये सृष्टि सृष्टेः विषये एतत् सर्वं कृष्णात् एतत एतत एव उत्पद्यते इति उत्तमम् अग्रिम अर्जुनः गान्धीवं वि प्लस् सृजत् व्यसर्जयत् विसर्जयत। विस विसर्जयत् स्रुबिकं सर्जय सर् सर्जयत् अत्र सृविकं सर् न तत्र सृजति एव भवति रूपम् सृज तत् सृजति इति लट्लकारि रूपं खलु अतः तत्र तत्र गुणः न भवति असृजत् इति लङ्लकाररूपम् असृजत् वेस्सृजत् mm. mm. उपसर्गस्य yeah, yeah. योजने व्यस्सृजत् mm. अर्जुनः गाण्डिमं व्यस्सृजत् इत्युक्ते किं भगिनी गान्धि uh, Gandhi... अर्जुनः गाण्डिमं सम्पूर्णार्थं न आगच्छति वेणी अर्जुनगान्धीव असुचत् इत्युक्ते सः उपयोगं करोति इति न न तत्र प्रथमे अध्याये अन्तिमे विषादयुक्तः सः त्यक्त्वा त्यक्त्वा त्यक्त्वा सत्यं त्यक्तवान् तत् विषादभावनया सह गाण्डिवं हस्तात् तत्र संस्कृति गाण्डिवं संस्कृते तत् स्रस्य धातु परन्तु अत्र तत् उपसर्गस्य अवबोधनं भवेत् अतः तत्र पुस्तके तत् वि योग सृजयति श्रद्धावान् श्रद्धावान् शान्तिं अद्य गम् दातु गच्छति अद्य गच्छत् अद्य गच्छ अद्य गच्छत् श्रद्धावान् शान्तिम् अद्य अद्य गच्छत् अगच्छत् अधि अधि अगच्छत् अद्य गच्छत् अस्तु श्रद्धावान् शान्तिम् अगच्छत् अद्य गच्छत् अद्य अद्य अध्यगच्छत् योग्ये बुधः कृष्णं प्रप्लस् पत् प्रापत् प्रापतत् प्रापतत् ह पदधातु तत् पदधातु आत्मनेपदी प्रापत, प्रापत प्रापद्यत इति आत्मनेपति अपद्यत इति भवति त पूर्णता अपद्यत तत् प्र अधिक अपद्यत प्रापद्यत बुधः कृष्णं प्रापद्यत इत्युक्ते किम बुधः कृष्ण तत् प्रापद्यते इत्युक्ते तत्र शरणागतः इति भावः बुध इत्युक्ते सत्यं योग्यम् बहु सम्यक् तत्र शरणागत बुध ये जनाः ज्ञानिजनाः ते सर्वं ज्ञातवन्तः इत्युक्ते ते न अहं करोमि अहं करोमि इति भावः न अवशिष्टः अतः ते सर्वे उदह यह कोऽपि सः प्रापद्यत कृष्णं शरणं गच्छामि इति वादः वेणी प्रपति इति प्रपत्ति इति अपि आचार्यः उक्तः प्रपत्तिः तत् आत्मनेपथ्यरूपं न खलु खलु प्रपद्यते न प्रपत्ति इति प्रपद्यते Mm. आत्मनेपदि सत्यं प्रपद्यते mm. mm. परन्तु तदा स्थितिका तत् लत् लकाररूपमस्य पद्यते mm. लत् लकारते तत्र mm. प्रपद्यते इति भवति mm. अधुना अत्र लङ्लकार अतः अपद्यत प्र mm. प्राय प्राय प्राक् प्र अधिक mm. अपद्यत प्रापद्यत इति mm. mm. Uh, भक्ताः देवं प्र प्लस् नि प्लस् पत् प्रणि प्रणिपत्यते अधुना प्रण्यपत्यते नण्यपतम् अपतत् ्यपतत् प्रण्यपतत् प्र अस्ति प्र एतस्य योजनेन प्रण्यपतत् एतत् सर्वेषां स्पष्टमस्ति उपसर्गं स्वयं भवति अतः प्र प्लस् इन् प्लस् या प्लस् आ प्लस् पथ तत पशन जहाँ वद प्रणिप कौमी त्राष्टांगम प्रणिपूरी जना वद अतीवश्रद्धया नम्रतया नम्रभाविया प्रणिपत नतमस्तक हाँ नमा अत संपूर्णतया अहम नमन कौन नमा नमा सामया सत्यं योग्य सम्यक् अस्तु अन्येषाम् एक एकनिमेष अन्येषां स्पष्टता अस्ति वा सर्वेषाम् अत्र कथं तत् प्रण्यपतत् इति स्पष्टमस्ति सर्वेषां वा लिखित्वा दष्टमस्ति अस्तु अस्तु हा अग्रिमे पठतु जय कुरुक्षेत्रे धर्मयुद्धं प्रावर्तते प्रावर्तते खलु प्रावर्तत प्र अधिक अवर्तत प्रावर्तत वर्तन्ते अस्तु उत्तममस्ति धन्यवादः अग्रिमे तत् हा अधुना रमा भगिनी पठतिवा, वा रमा भगिनी अग्रिमे पठति वा अस्मिन् उपसर्गयुक्ताय तव तु तवतु प्रत्ययान्तरूपैलिङ्गे वाक्यानि रचयत हा अधुना पश्यतु तव तु प्रत्ययान्तरूपाणि इत्युक्ते किं यदा वयम् अगच्छत् इति वदामः चेत् तद्भवती गतवान् पुल्लिङ्गे हा अगच्छत् गतवान् भूतकाले तव तु प्रत्ययस्य योजना हा पठ दुर्योधनं गदया गदया, गदया, तत्र किञ्चित् ध्वनेः मध्ये कोऽपि दोषः अस्ति भगिनी सम्यक् न श्रूयते मन्ये तत् अन्यैः श्रुयते वा ध्वनिः श्रूयते वा सम्यक् तत्र दोषः अस्ति भवत्याः ध्वनिः न श्रूयते सम्यक् भगिनी अधुना पठतु प्रयत्नं करोतु अधुना पठतु न इतोपि न श्रूयते भगिनी न न किञ्चित् क्लेशः वर्तते न श्रूयते वा समस्या अस्ति इति मन्ये तत्र पठतु पुनः एकवारं भीमः पठतु अधुना कथं करणीयम् इति धातु तस्य तव तु प्रत्ययन्तरूपं किं भवति भूत्काल तव तु प्रत्यान्तरुपुलिने तत् भवती ऋतवान् यथा गमधातोः कृते गतवान् भवति तथैव रुधातोः कृते भवती ऋतवान् योजनेन किं भवति प्रहृतवान् प्रहृतवान् सत्यम् भीमः दुर्योधनं गदया अधुना पश्यन्तु तत्र भीमदुर्योधन द्वयोः मध्ये गदायुद्धं प्रचलत् आसीत् तदा गदया इति तत्र गदा शब्दस्य तृतीया साधनम अर्थ साधनं किम् अस्ति हरणं कृतवान् परन्तु साधनं किं तत्र गदा गदायुद्धम् गदया त्रिलिङ्गी तृतीया प्ररूतवान, प्र उपसर्ग तत्र प्रकर्षेण ऋतवान् तत्र भीकरः दृश्यः भीकरं युद्धं जातं तस्मिन् समये भीमदुर्योधनद्वयोः मध्ये तदा प्रहृतवान् इति अस्तु अग्रिमे पठतु कृष्णः गीताम् उपप्लस् उपदेश उपदेशं कृतवान् परन्तु तत् दिश् अस्ति दिश् धः तव तु प्रत्यान्तरूप तवतु उपतिष्ठवान् उपतिष्टवान् इति भवति पश्यन्तु तत्र एकं लिखित्वा पश्यामः कथं भवति उप इति उपसर्ग तवतु प्रत्ययः कथं भवति एकवारं सर्वे पश्यन्तु उप अत्र उप इति अस्ति उक् हलन्त नास्ति दिश् दिश् दिश इति हलन्त तवतु तवतु तत्र उकार अंतिमं अपगच्छति तेन त हलन्तरूपेण व तथैव तिष्ठति क अपि अपगच्छति तवत् अधुना अत्र श अस्ति अत्र त अस्ति उप अत्र आदेशः भवति मूर्धन्यशकार अधुना श परे त आगच्छति चेत् तत्र तकारस्य टकार भवति अधुना अस्माभिः किं करणीयमस्ति अधुना अस्माभिः तत्र पुल्लिङ्गिरूपम् अतः उपदिष्ट एवं तत्र किमर्थम् उपदेशितवान् न भवति भगिनी उप उपदेशितवान् किं न भवति अत्र अत्र प्रथमतः तु शकारस्य षकार आदेशः भवति हा अनन्तरं तत्र षकारस्य शकार आदेशः भवति अत्र उपदिष्टवान् एवं रूपम् उपदिष्टवान् किमर्थं न भवति तत्र उपधायां षकार नास्ति उपधायां लघु इक नास्ति उपदेष्टिवान् उपदेष्टितवान् इति नास्ति उपदिष्टवान एवं सर्वेश स्तरेषु तत्र इडागमः न भवति अस्तु भगिनि शकारेषु शकार अनन्तरं स्तुत्व ष्ट उपदिष्टवान् तत्र इडागमस्य विषये इडागम तत्र केचन प्रत्ययाः इडानुकूलानुकूल इडानुकूल अस्सन्ति तत्र इडागमः भवति तथैव केचन धातवः इडागमस्य कृते अनुकूलाः परन्तु केचन धातवः इडागमस्य इडागमविषयक अनुकूलता अनुकूलतां न दर्शयति अतः तत्र उपदिष्टवान एवं रूपम् अस्तु भगिनि अग्रिमे अत्र अर्जुनः अर्जुनः अर्जुनः रथोपस् रथोपस्थे उप प्लस् विश् उपविष्टवान् अत्रापि उपविष्टवान् अत्र उपवेष्टवान् ने उप मूढाः देवं मानवम् अवज्ञा मूढाः देवं मानवम् अवज्ञातवान् अवज्ञातवान् हा अत्र मूढाः अस्ति मूढाः इत्युक्ते बहुवचनान्तम् अवज्ञा ज्ञा धातोः किम् अस्ति इति भवति पुल्लिङ्ग अत्र मूढाः इति बहुवचनं ज्ञातवन्त अतः अवज्ञातवन्तः अवजानन्ति मां मूढाम् इति अस्ति खलु भगवद्गीतायाम् अत्र ये मूढाः सन्ति ते देवं देवं मानवम् वस्तुतः देवः इति शक्तिरूपेण तत्र अस्ति तद् मानवरूपम् इति न परन्तु ये अज्ञानि जनाः ते किम् अवजानन्ति ते मानवम् एव मन्यन्ते तेषां मनसि इति भाव बहवान् योगं प्रभृ प्रवृत्तवान् प्रवृद्धवान् प्र किमस्ति किं पृच्छन्तु किं भवति लिखित्वा प्रधिकब्रू अधिक ब्रू ब्रू इति धातु ब्रू व्यक्तायां वचि इति धातु तस्य विशेषता का ब्रुवो वचि अनेन तत्र ब्रू स्थाने वच् इति आदेशः भवति प्र वच् तवान् तव तवान् इति पुल्लिङ्गी अधुना वच् धातोः तवान् अस्ति अतः तत् इति भवति बकारस्य उकार भवति पश्यन्तु यथा मया तत् इको यणचि इति उक्तं तत् यणसन्धेः यणसन्धिविषयक ये नियमाः तस्य विपरीत विपरीतदृष्ट्या तत्र सम्प्रसार सम्प्रसारणमिति भवति अधुना तत्र वस्थाने उच् भवति वस्थाने उ भवति च तथैव तिष्ठति अधुना च शोहोकी इति एकं सूत्रम् तेन प्र उक् प्रक्तवान् उक इति अधुना प्र अधिक उ प्रोक्तवान् प्रकर्षेण सह योगं भगवान योगं प्रोक्तवान् प्रकर्षेण सह उक्तवान् तत्र वा, वा, वाचा भगवतः वाचा तत् कीदृशी वाचा पुण्यचालिनी वाचा तत् प्रकर्षेण सः उक्तवान् अतः प्रोक्तवान् इति एतत् स्पष्टमस्ति वा पुनः एकवारं वदामि अस्तु अन्यान् पृच्छ अन्यान् अपि पृच्छामि पुनः एकवारं वदामि वा स्पष्टीकरणं असुदा अस्तु अस्तु धन्यवादः रमा धन्यवादः तत् पञ्चमः अभवत् भगवान् योगम् अधुना अग्रिमे वीणा भवती पठति वा शिष्यः गुरुं प्रयोगः नियोगः पत् आम् प्रणिपतवान् प्रणिपतवान। तत्र प्र निपत अधुना किं तत्र केवल एकः अस्ति तत्र इडागमः भवति तत् पत् इति पतितवान् भवति हा तत्र इ आगच्छति मध्ये हा पतितवान् प्रणिपतितवान् इति भवति प्रणिपतितवान् शिष्यः गुरुम् अत्र पश्यतु पूर्णतः समभावं तत्र पूर्णतः किं वदामि तत्र पूर्णतः सः प्रणामं करोति पूर्णतः शरणागतभावनयः सः गुरुम् उपसमीपं गच्छति हा शिष्यः गुरुम् इति पतवान् इति न पतितवान् प्रणीपति तत्र पत् इत्युक्ते पश्यन्तु वयं वीणा वयं वदामः वृक्षात् फलं पतति तत् पत् इत्युक्ते फालिङ्ग् डौन् इति अस्ति खलु वास्तविक अत्र फालिङ्ग् डौन् इति नास्ति तत्र प्र उपसर्ग नी उपसर्ग तेन किं भवति नम्रते अधु अधुना गुरुः एव मम तारणहारः गुरुः एव मम ज्ञानबोध मम कृते ज्ञानबोधनं करोति गुरुः एव मां पाठयति इति भावः हा अधुना गुरु गुरुवचनात् एव मम सर्वं ज्ञानम् इति भावः पतितवान् इति अस्तु भगिनि अस्तु अग्रिमे अग्रिमे मुनिः सायुज्यं समयोग अवयोग आप् संयोग अवयोग आप् आप् इत्युक्ते किञ्चित् क्लिष्टमस्ति भगिनि <laughs> आप् इत्युक्ते पश्यन्तु आप् आप्नोति तत्र प्राप्नोति इति भावम् प्राप् अधुना तत् प्राप्तिः तत केवलं प्राप्तिः अधुना प्रातःकाले अहं चायं प्राप्नोमि तत् सामान्यतया परन्तु अत्र किमस्ति उपसर्गसहितसम उपसर्ग अव उपसर्गद्वयम् उपसर्ग इत्युक्ते अत्र सायुध्यं समभावं मुनिः तत्र मुनिः तस्य स्वस्य साधनया प्तवान् समवाप्तवान् समव समवाप्तवान् तत्र म तत्र हलन्तमस्ति खलु अतः तत् म अ समव समवाप्तवान् अत्र किं भवति सम्पूर्णतया समभावं प्राप्तवान् समता अस्ति सम यो, योगं समता तत्र योगे तत् समता इति आवश्यकी खलु समता इत्युक्ते तत् समानता तत्र अध्यदिने दिने अहम् ओकी पक्वान्नयुक्तं भोजनं खादामि तत मनसि सन्तोषः द्वितीयदिने यदा अहम् उपवासं करोमि तदा मनसि खेदः इति समानता सर्व समभावम् सुखदुःख सुखदुःखे समये कृत्वा लाभालाभो जया जयौ समीकृत्वा समाप्तवान् तत् साज्यं सम्पूर्णतया पूर्णतः मुनिः समाप्तवान् इति अस्तु भगिनि गुणाः देहिनम देहे नियोगः बन्ध नि अत्र न्य न भवति किमर्थं पश्यन्तु बन्ध इति धातु वयं लिखामः अत्र लेट् एस् रैट् बन्ध इति धातुः तस्य तव तवान् इति लिखामः मूलतः तु अत्र नि अस्ति बन्ध इति धातु तवान, तु तस्य पुल्लिङ्गिरूपं तवान् अधुना अधुनातर गुणाः इति अस्ति अनन्तरं पश्या बन्ध अत्र बन्धधातोः अत्र एकं सूत्रमस्ति अनियता हलोप तेन किं भवति तत्र नकार अपगच्छति अतः तत्र बद्ध एव नकार अपगच्छति तवान. अधुना किम भवति अत्र भवती अत्र पश्यन्तु य कदा भवति परे अच् अस्ति तदा एव भवति स्वर भवेत् खल एको यणचि इकः यण अच्ी परे भवति किञ्चित् व्याकरणस्य विषये वदामि किमर्थं तत् मनसि स्पष्टता भवति तेन पश्यन्तु परे अच् अस्ति स्वरः अस्ति तदा एव यकारस्य इकार वकारस्य उकार ऋकारस्य रेफः ऋकारस्य ल लकार कदा परे अच् अस्ति अत्र ब इत्युक्ते स्वरः अस्ति वा विना भगिनी ब इत्युक्ते स्वरः वा न तत् व्यञ्जनम् अस्ति खलु अधुना किं भवति बध नकार अपजति एकं सूत्रमस्ति तत् नकार न तिष्ठति अतः अधुना तत्र एकम् इतोपि एकं सूत्रं तेन किं भवति तकारस्य धकार भवति धकारस्य दकार भवति <coughs> <coughs> <coughs> <coughs> <coughs> <coughs> निबद्ध निबद्ध वा अस्तु <laughs> so, अधुना तत्र गुणाः अस्ति अतः बहुवचनान्तपदं निबद्धवन्तः गतवान् <laughs> गतवन्तः गतवान, पृष्टवान् पृष्टवन्तः निबद्धवान् निबद्धवन्तः अन्ततो <laughs> गतवान् भगिनी... भगिनी? न्तः तत् अस्ति एव परन्तु कथं वयं कुर्मः शनैः शनैः तत्र लिखित्वा वा किञ्चित् तस्य पुनः स्मारणं कृत्वा वयं ज्ञा निश्चयं भगिनि तत् <coughs> धन्यवाद <coughs> धन्यवादः दा धन्यवादः पाठः अस्ति तत् अग्रिमे वर्गे कुर्मः अधुना कथां प्रति गच्छामः अधुना ब्रू दातु कथम् आमां वदामि वदामि हा तत्र ब्रू इति दातुं ब्रूधातु इत्युक्ते तत्र भगवद्गीतायां ब्रवीमि ब्रवती एतादृशाणि रूपाणि वयं दृष्टवन्तः तद् ब्रूधातु तस्य अर्थः अस्ति व्यक्तायां वाचि ह तत्र एकं सूत्रमस्ति ब्रूवो वच्मि ब्रुवो वच्मि इत्युक्ते ब्रूधातोः स्थाने वच् इति आदेशः भवति आदेशः आदेशः इत्युक्ते वि शत्रुवत् तत्र कम्प्लीट् डिस्ट्रक्षन् द इट् गोज़् अवे तस्य स्थाने वच् आगच्छति आदेशरूपेण अधुना वच् अधिकतवान् इतोपि तत्र यथा सामान्यतया वदामि वयं वदामः तत् यणसन्धि रिवर्स् आफ् यणसन्धि बिकम् सम्प्रसारणं हा तत् यणसन्धेः नियमः कः स्वरः परे आगच्छति चेत् यकारस्य इकार ह्यवताम् इकारस्य यकार उकारस्य वकार इति यणसन्धे परन्तु रिवर्स रिवर्स् आफ् यणसन्धिविकं सम्प्रसारणम् इत्युक्ते तत्र दृष्ट्या, वकारस्य भवति उकार उ तवान, अवान् अधुना तत्र एकं सूत्रमस्ति महोदय चोः कुः इत्युक्ते च वर्गस्य कवर्गु कु चु च कु कखगो कुः इत्युक्ते च वर्गस्य कवर्ग तेन किं भवति अत्र च तु अस्ति च एतस्य किं भवितुमर्हति क भवति प्र उख भवति उक्तवान् पश्यन्तु अत्र प्र उक्तवान् भवति प्र उक्तवान् प्रधुना का अकार उकार अकार उकार गणेश अधिक उत्सव गणेशोत्सव प्रोक्तवान् ओ, ओ भवति तेन किम् रूपम् निष्पद्यते प्रोक्तवान् प्रकर्षेण उक्तवान् तत् योगस्य ज्ञानम् योगज्ञानम् प्रोक्तवान् स्पष्टमस्ति चतुर्थः वाक्यः एकं वारं वदति वा मूढाः देवं मानवम् अवज्ञातवान् वा तत्र मूढाः सन्ति हा मूढाः सन्ति इत्युक्ते तत्र बहु ज्ञातवन्तः इत्युक्ते ते, ते, क, ते, क, ते किम मूढः अस्ति सः किं जानाति एषः तु मानवः एव दैवी या गुणसम्पदा तस्य विषयकः सः अनभिज्ञः न जानाति एवं मा मानवम् अवज्ञातवन्तः इति अस्तु भगिनि धन्यवादः भगिनी या अस्तु अस्तु अधुना कथां प्रति गच्छामः अम्बिकापतिमहोदय भवानेव पठति वा तत् अध्ययनं ज्ञानसङ्ग्रहाय इति कथायाः विषयः अध्ययनम् अध्ययनं ज्ञानसङ्ग्रहाय सङ्ग्रहाय सः कश्चन सर्वकारीयः विद्यालयः परीक्षायाम् अधिकान् अङ्कान् प्राप्तवन्तः सत्काराय कार्यक्रमः अयोजितः अस्ति hmm. अधिकान् अङ्कान् प्राप्तवान् बालकः सभायाः अग्रे आसन्दे उपविष्टः अस्ति hmm. अग्रिमे अपि पठितु hmm. सभा आरम्भ आरब् आरब्धा मुख्य मुख्यतीर्तिः अधिकान् अतिथिः अतिथिः अतिथि अतिथि चीफ् गेस्ट् अधिकान् अङ्कान् प्राप्तवन्तं बालकं परितो पारितोषिकदानेन पुरस्कृतवान् mm. एतस्य सामान्यज्ञानं परीक्षणीयम् इति mm. इच्छा तस्मिन् उत्पन्ना अतः सः mm. पाडाड्येत पाठ्येतरविशयान् अधिकृत्य पञ्चशान् प्रश्नान् पृष्टवान् किन्तु सः बालः एकस्य अपि उत्तरं न दत्तवान् मुख्य अतिथिः तं बालकं पृष्टवान् मया पृष्ट्य एतस् एकस्थानि प्रश्नस्य उत्तरं न दत्तम् त्वया एवं तर्हि परीक्षायाम् अधिकाः अंकाना कथं प्राप्ताः इति किमस्ति अत्र स्वशब्दै वा स्वशब्दैः केचन uh, विद्यालय अत्र अत्र hmm. uh, दानेन uh, समये uh, प्रथम अतिथिः hmm. Mm -hmm. एकं प्रश्नः उक्तवान् एकप्रश्नः उत्तरं न सम्यक् दत्तवान् mm -hmm. कथम् अङ्कान् प्राप्ताः इति उक्तवान् सत्यं uh -huh. तत्र पश्यन्तु तत्र uh, स्वागतसमारम्भः वा तत्र पारितोषिकवितरणसमारम्भः अस्ति सत्कारसमारम्भः तत्र अस्ति त्र ये ते छात्रा अंकावे त्रा कार्यक्रम आयोजित हाँ अं अं अंका तंकां सालक यहाँ बा अधिकम अंकम प्राप्तवान, तदा सह सालक अग्रे आसंदे उप अग्रे सह बालक अस्ना सभा आरब्धा तत्र दानेन सभा आरंभ ज्यात तारिषिक अतिथि आसत सोपक अस् अंक अथा तत्र हैयेस्ट् इति वदामः तत्र सः मुख्य अतिथिः पारितोषिकम् दत्तवान् अधुना तत्र मुख्य अतिथि तस्य मनसि मुख्य अतिथेः मनसि एकः विचारः अस्तु एषः बालकः तु सर्वश्रेष्ठः इति सर्वेषु बालकेषु सः उत्तमं अङ्कम् प्राप्तवान् अत्र तत्र सामान्यज्ञानस्य परीक्षणम् कुर्मः सामान्यज्ञानम् इत्युक्ते जनरल् नालेज् इति अधुना आधुनिककाले वयं वदामः तत् इति तत् तस्य परीक्षणं कुर्मः इति तस्य मनसि इच्छा उत्पन्ना सः पाठ्येतरविषयान् अधिकृत्य पाठ्येतर इत्युक्ते किम् अदर् देन् वट् एवर् इस् प्रिस्क्रैब् इन् द सिलेबस् इतर् जनरल् नालेज् सामान्यज्ञान अतः पाठ्येतरविषयान् अधिकृत्य स्वीकृत्य सः पञ्चषान् प्रश्नान् पृष्टवान् जस्ट् फैव् क्वशन्स् वेर् आस्क् अत्र पश्यतु पृष्टवान् तव तु प्रत्यय दत्तवान् तव तु प्रत्यय परन्तु सः बालकः सर्वेषु बालकेषु श्रेष्ठः इति सः बालकः सः तु किमपि एकम् अपि उत्तरं न दत्तुं शक्षमः न दत्तवान् अधुना सः मुख्य अतिथिः सः पृष्टवान् एकस्य अपि प्रश्नस्य उत्तरं न दत्तं त्वया अत्र त्वया इत्युक्ते अत्र पश्यतु न दत्तं त्वया अत्र कर्मणि प्रयोगः अस्ति उत्तरं न दत्तं त्वया एवं तर्हि परीक्षायाम् अधिकाः अङ्काः कथं प्राप्ताः परन्तु सर्वेषु बालकेषु भवान् भवतः यत् गणना अस्ति श्रेण्यनुसारेण सा अधिका दृश्यते कथमेवम् इति मुख्यातिथेः प्रश्नः अस्तु हा हा वदतु अत्र पञ्चशान् इति पदस्य किञ्चित् फैव् सिक्स् फैव् सिक्स् पञ्चशान्तु द्वित्रा टु त्रि द्वित्रात् वर्ड् टु थ्री क्वन् पञ्चशान् फैव् सिक्स् क्वशन् हा पञ्चशान् इति फैव् सिक्स् क्वशन् सः पृष्टवान् तथा सः एकस्य अपि उत्तरं न दत्तवान् अधुना सामान्यज्ञानस्य विषयकः तस्य ज्ञानं न्यूनम दृश्यते परन्तु परीक्षायां सः तस्य श्रेणी अधिका इत्युक्ते अधिकाः अङ्काः प्राप्ताः कथमेतत् इति प्रश्नः अस्तु स्पष्टमस्ति एतावत् पर्यन्तं सर्वेषां अग्रेसरेण किमस्ति पश्यामः अधुना हा। कः भारतमहोदयः अस्ति वा लेफ्ट् इति न दृश्यते खलु का गीता भगिनी वा नमो नमः भगिनी पठतु भव निश्चयेन अहमपि अनन्तरं पठामि का भगिनी अस्ति श्यामला भगिनी श्यामला भगिनी ओ नमो नमः श्यामला भगिनी भवती अपि पठतु अनन्तरं हा अस्तु पठनतः गीता भगिनी पठतु सः बालकः सः बालकः उक्तवान् अहम् उत्तराणि कण्ठस्थीकरोमि ततः उत्तराणि लिखामि पाठयेतरविषयं न जानामि अहम् इति तावता सभायां स्थितः कश्चन बालकः उत्थाय अवदत् भवता पृष्ठानां सर्वे सर्वेषामपि प्रश्नानाम् उत्तरम् अहं जानामि इति किमस्ति mm -hmm. स्वशब्दैः वदति वा देव् um, ओन्लि uh, बै हार्ट् उत्तरं लिखति पाठस्तरविषयं न जानामि अन्यविषयान् अण्डर्स्टाण्ड् वि सत्यं तदा किम् अभवत् तावता सभायां तत् किम् अभवत् भगिनी तावता अग्रिमे अस्ति खलु तावता सभायां स्थितः पश्य नमः तावता स्थितः कक्षन बालकः उत्थाय अवदत् भवता पृष्ठानां सर्वेषामपि प्रश्नानाम् उत्तरम् अहं जानामि इति भवता पृष्ठानां सत्यम् इति कश्चन बालकः तत्र आसीत् अधुना एषः बालकः सर्वेषु बालकेषु श्रेष्ठः इति वदामः चेत् सः किम् उक्तवान् अहम् उत्तराणि कण्ठस्थी अहम् उत्तराणां कण्ठस्थीकरणं करोमि केवलं कण्ठस्थीकरणं करोमि उत्तराणि लिखामि तत्र अन्यां विषयान् सामान्यज्ञानविषयकः मानमं नाठेतर विषयान अहम न जा सी सभाया एक बाय उत्था त्र अस्था लेटिंग अट्ठा उत्वत अवदतारृष्ठा सर्व प्रश्ना उत्तरम् अहं जानामि भवता क्वश्चन्स् आस्क् बै यु तत्र तृतीया पृष्टानाम् उत्तरा प्रश्नानाम् इत्युक्ते सर्वेषां प्रश्नानाम् उत्तरम् अहं जानामि पृष्ठानां पृष्टः इत्युक्ते आस्क् बै यु इति सामान्यज्ञानविषयकप्रश्नः तेषाम् उत्तरान् अहं जानामि इति अन्य एकः बालकः सः उत्थाय अवदत् अस्तु कष्टमस्ति अस्तु धन्यवादः अग्रिमे श्यामलाभगिनी पठित्वा वदता वत् तावत् इति उक्तवान् मुख्यातिथिः बालकः सर्वेषामपि उत्तरम् उक्तवान् मुख्यातिथिः पुनः काश्चन प्रक्षा प्रश्नान् क्षान् पृष्टवान् सः बालकः तेषाम् अपि समुचितम् उत्तरम् अवदत् एतस्मात् मुख्यातिथिः नितराम् सन्तुष्टः सः अपृच्छत् साधु बालक त्वम् कक्षायाम् पठसि किम् किम् अभवत् अत्र स्वशब्दैः वदति वा प्रयत्नं करोति Ah. Hmm. Ah, ah, तावत् इति उक्तवान् मुख्यातिथिः मुख्यातिथिः ah, hmm. ah, वत् तावत् इति उक्तवान् hmm. बालकः सर्वेषामपि उत्तरम् उक्तवान् hmm. सर्वे बालकाः उत्तरम् उक्तवान् uh, uh, uh, मुख्यातिथिः पुनः काङ्क्षनप्रक्षालं दृष्टवान् अतिथिः hmm. hmm. uh, पुनः Uh, प्रक्षान् पृष्टवान् mm -hmm. सः बालकः तेषामपि समुचितम् उत्तरम् अवदत् सर्वे mm -hmm. बालकाः ते उत्तरं समुचितम् उत्तरं वदति सः बालकः सर्वेषां प्रश्नानां समुचितम् उत्तरम् अवदत् मुख्यातिथिः अन्यान् प्रश्नान् अपि पृष्टवान् परन्तु बालकः सर्वेषाम् प्रश्नानाम् सम्प्यप्रकारेण उत्तरम् दत्तवान् एतस्मात् मुख्यातिथि नितराम् सन्तुष्टः सः नितराम् तत् साधु साधु इत्युक्ते उत्तमम् बाल त्वम् कक्षायाम् पठसि इत्युक्ते तत्र सामान्यज्ञानं दृष्ट्वा सः अचम्बितः सः आश्चर्येण पृच्छति इति मुख्यातिथिः इति भा अस्तु धन्यवादः धन्यवादः अग्रिमे आगस्ट् महोदय आगस्ट् महोदय पठति वा सः यस्यां कक्षायां पठति तस्यामेव इति उक्तवान् बालकः तव बुद्धिमता तु अपूर्वा एव अस्ति कति मुङ्काः प्राप्यन्ते त्वया मुख्यातिथिः अपृच्छत् एतदपि वाक्यद्वयमपि पठतु अनन्तरं वदति उत्तमाः अङ्काः उत्तमाः अङ्काः एव प्राप्यन्ते द्वितीयं तृतीयं वा स्थानं प्रायः प्राप्नोमि अहम् hmm. मया पृष्टानां सर्वेषां प्रश्नानाम् उत्तरं कथं वक्तुं शक्तं त्वया hmm. किमस्य अत्र स्वशब्दैः वदति वा अधुना स्थितिका तत् मुख्या मुख्यातिथिः सः सह हा बालकस्य बुद्धिमताम् दृष्ट्वा सः सन्तुष्टः बुद्धिम् दृष्ट्वा सः सन्तुष्टः अधुना सः पृच्छति कक्षां क कक्षायाम् पठसि तत् सः वदति यः प्रथमं स्थानं प्राप्तवान् यस्याम् कक्षायाम् पठति तस्यामेव इत्युक्ते वि बोथा फ्रम् द सेम् क्लास् इति भावः यः प्रथमः स्थानम् प्राप्तवान् सः बालकः अहमपि द्वयोः कक्षाः कक्षा समाना एव इति यस्याम् सः यस्याम् कक्षायाम् पठति तस्याम् एव कक्षायाम् अहम् पठामि अधुना अग्रिमे पश्यतु सः वदति त बुद्धिमत्ता तु अपूर्वा एव अस्ति बुद्धिमत्ता अपूर्वा इत्युक्ते किम् uh, आगस्ट् महोदय आम् अपूर्वा इत्युक्ते एक्स्ट्रा आर्डिनरी इति हा हैलि इण्टेलिजेण्ट् अपूर्वा एव अस्ति कति अङ्काः प्राप्यन्ते त्वया अधुना अङ्काः इत्युक्ते मार्क्स् इति हा अधुना सः पृच्छति भवतः अङ्कान् विषये वदतु कति अङ्काः प्राप्यन्ते त्वया त्वया कति अङ्काः प्राप्यन्ते त्वं कति अङ्कान् प्राप्नोषि इति प्राप्नोषि इति प्राप्नोषि इति प्रश्नः हा, हा? हा? मुख्य अतिथिः अपृच्छत् वट् इस् युवर् स्कोर् अग्रिमे किम् अग्रिमे सः किं वदति आगस्ट् महोदय उत्तमाः अङ्काः इत्युक्ते ऐ एम् आल्सो गेटिङ्ग् गुड् स्कोर् तत्र द्वितीयं तृतीयं वा स्थानं प्रायः प्राप्नोमि अहम् इत्युक्ते पश्यन्तु एषः बालकः तु प्रथमं स्थानं प्राप्तवान् यस्य सत्कारम् तत्र अभवत् अधुना सः बालकः सामान्यज्ञानविषयकः यस्य अपूर्वा बुद्धिमा बुद्धिः इति तत् सः द्वितीयं स्थानं वा तृतीयं स्थानं सम्टैम्स् सेकेण्ड् नम्बर् थर्ड् नम्बर् इति स्थानं प्रायः अहं प्राप्नोमि इति वदति अधुना तत्र प्रथमं स्थानमिति नास्ति सेकेण्ड् ओर् थर्ड् पोसिशन् अधुना अतिथि पृच्छति मया पृष्ठानां सर्वेषां प्रश्नानाम् उत्तरं कथं वक्तुं शक्तं त्वया भवान् तु द्वितीयं वा तृतीयं स्थानं प्रायः प्राप्नोति प्राप्नोति परन्तु मया पृष्ठानां वाट् एवर् आस् सर्वेषां प्रश्नानाम् उत्तरं तु भवान् दत्तवान् हौ इस् इट् पासिबल् कथं वक्तुं शक्तं त्वया हा स्थानं तु द्वितीयं वा तृतीयं प्रथमं न परन्तु सामान्यज्ञानविषयकः भवतः बुद्धिः तु अपूर्वा कथमेतत् इति मनसि प्रश्नः योग्यमस्ति ओगस्ट् स्पष्टमस्ति <laughs> पुनः एकवारं पश्यन्तु तत्र अस्तु अधुना विषयः कः तत् प्रथमं स्थानं तत् अवल् नम्बर् इति वदामः खलु टोप् मोस्ट् पोज़िषन् तत् टोप् मोस्ट् पोज़िशन् इत्युक्ते अहं सर्वं जानामि इति न सामान्य ते कण्ठस्थीकरणं सः कण्ठस्थीकरणं बाय्हार्ड् कृत्वा उत्तरं लिखति परन्तु द्वितीयः बालकः तत्र प्रथमं स्थानं तस्य नास्ति कदा कदा द्वितीयं स्थानं कदा कदा तृतीयं स्थानं पस् परन्तु तस्य सामान्यबुद्धि सामान्यज्ञानविषयकबुद्धिमत्ता अपूर्वा इति सः बुद्धिमान् आसीत् इति अदर् देन् अकाडेमिक् स्टडि इति hmm? भावः अग्रिमे पठामः अस्तु धन्यवादः अस्तु महोदय धन्यवादः अधुना तत् जयन्ति भगिनी पठति वा अग्रिम् अहं सर्वदा अहं सर्वदा पाठ्य पाठ्यपुस्तकानि इव अन्यानि अपि पुस्तकानि पठामि ज्ञानसङ्ग्रहाय सर्वदा प्रयासं करोमि सः बालकः वदति अहं पाठपुस्तकम् एव न पठामि अन्य अन्य अन्यपुस्तकानि अपि विषयान् सङ्ग्रहामि इति वदति ज्ञानसङ्ग्रहस्य hmm. विषये अहं बुभुक्षा भवामि इति hmm. वदति समुचिता समुचिता hmm? दृष्टिः तव hmm. अध्ययनं ज्ञानलाभाय एव स्यात् न अङ्गप्राप्य प्राप्त्यैकदृष्ट्या hmm. तव प्रवृत्तिं दृष्ट्वा अहं नितरां सन्तुष्टोऽस्मि अतः hmm. वैयक्ति वै वय, वैयक्तिकरूपेण अहं hmm. परितोषिकं ददामि इति उक्त्वा स्वकोषस्थान अमूल्यं लेखनीम् तस्मै दत्वा अपृच्छत् तव नाम इति uh, hmm. अतिथिः उक्तवन्त उक्तवान् uh, hmm. समुचिता दृष्टिः तव uh, त्वया uh, त्वया दृष्टिः उचितम् अस्ति अद्ययनं ज्ञानलाभाय hmm. एव भवनीयं न तु hmm. अङ्ग uh, uh, अङ्गप्राप्त न भवनीयम् hmm. तव uh, प्रवृत्तिं दृष्ट्वा अहं नितरां संतोषः भवान् भवतः ज्ञानविषये अहं प्रवृत्तिं दृष्ट्वा अहं बहु सन्तोष सन्तोषवान् भवामि अतः सन्तुष्टवान् सन्तुष्टवान् भवामि अतः वैयक्तिकरूपेण अहं पारितोषिकं द ददामि मया Uh, पारितोषिकं द दद दत्तम् इति uh, um, अतिथि उक्तवान् इति उक्त्वा स्वकोशस्थानम् uh, स्वस्य स्थानं uh, uh, uh, गतवान् अमूल्यं लेखनीं तस्मै दत्त्वा अपृच्छत् सः mm. um, uh, अतिथिः तस्मै um, बहु उत्तमानि अङ्गा लेखनीं uh, दत्त्वा तदा एव तस्य नामः पृष्टवान् किम् इति अधुना अत्र पश्यन्तु तत् अहं सर्वदा पाठ्यपुस्तकानि इव अन्यानि अपि पुस्तकानि पठामि इत्युक्ते नाट् रेस्ट्रिक्टेड् टु दिस् सिलेबस् ओर् पोर्शन् फार् द एक्साम् ज्ञानसङ्ग्रहाय अत्र जयन्ति भगिनि ज्ञानसङ्ग्रहाय विभक्ति का भाष्य वयम अत्र चतुर्थ हाँ ज्ञानसंग्रहासंग्रहा किम स्थान स्तरवर्धनाय वर् अवगं शे वक्त वयम अत्रे वय अलिता अ ङ्ग्रहाय स्तरवर्धनाय प्रयत्नं करणीयम् अतः mm -hmm. तत् प्रयासं करोमि प्रयत्नं करोमि हा अधुना तत् स मुख्यातिथिः वदति अध्ययनं ज्ञानलाभाय एव न तु अङ्कप्राप्तेकदृष्ट्या केवलं गुणान् सञ्चयनं करोमि अनन्तरं तेषाम् अ, अ, अ एवं सर्वं तत् प्रशस्तिपत्रकान् सर्वं एकत्रितान् सर्वप्रदेश प्रदेश, प्रदेश, प्रदेश प्रशस्तिपत्रिकाः मम समीपे बहवः सन्ति तेषाम् एकत्ररूपेण सङ्ग्रहणं कृत्वा तस्य प्रदर्शनं करणीयम् इति न हा ज्ञानलाभाय तव प्रकृतिं दृष्ट्वा अहं प्रकृ प्रवृत्तिं क्षम्यतां प्रवृत्तिं प्रवृत्तिम् इत्युक्ते टेण्डन्सि प्रवृत्तिं दृष्ट्वा अहं का प्रवृत्ति ज्ञानलाभार्थं ज्ञानसङ्ग्रहार्थम् अध्ययनम् इति प्रवृत्ति हा वैयक्तिकरूपेण स्वकोशस्थाम् अमूल्यां लेखनीं सः दत्तवान् तस्मै बालकाय सः दत्तवान् नाम पृष्टवान् इति नाम किम् इति पृष्टवान् एतावत्पर्यन्तं हा अग्रिमे हा तद्विना भगिनी पठति अन्तिमम् अस्तु <coughs> <भगीने. coughs> ः बालकः ददा ददाभायि नवरोजिः सारि दादाभायि नवरोजिः इति मम नाम इति उक्त्वा मुख्यातिथिम् नमस्कृत्य वेदिकातः अद्य आगतवान् सः <coughs> बालकः उक् उक्तवान् तस्य नामः दादाभायि नवरोजि इति Hmm. एवम् उक्त्वा सः वेदिकातः वे अधः आगतवान् <coughs> दादाभि नवरोजि इति कः तस्य विषये जानति वा भवती भगिनी अन्य कोऽपि जानति वा दादाभि नवरोजि आम् आम् देशभक्तः महान् देशभक्तः आसीत् तथैव पश्यन्तु सः अत्र किञ्चित् आङ्ग्लभाषायान् इण्डियन् पोलिटिकल् लीडर् अपि आसीत् तथैव सः वन् आफ् दि फौण्डर् मेम्बर् आफ् इण्डियन् न्याशनल् काङ्ग्रेस् इति सः आसीत् एण्ड् की फिगर् इण्डियन् पोलिटिक्स् इति प्री इण्डिपेण्डेन्स् पीरियड् एण्ड् देन् द अतीवमहत्त्वपूर्ण तत्र विषयकः Economic exploitation done by British, right? So that economic exploitation under the British rule, it took the term, the transfer of wealth from India to Britain, that is. The transfer of wealth from India to Britain, that is. The transfer of wealth from India to Britain, that is. सम्पत्तेः साधनसामग्रेः अपहरणं भारतदेशात् बहिः तस्य विषयकः एतस्य अभ्यासः आसीत् तत् महान् देशभक्तः आसीत् सः फौण्डर् uh, आफ् इङ्ग्लिश् तत् प्र uh, प्रमुखः तत् यदा तस्य इण्डियन् नेषनल् काङ्ग्रेस् एतस्य स्थापनाम् अभवत् तस्मिन् समवे सह प्रमुखः तत्र कार्यकारी इति वयं वक्तुं शक्नुमः hmm? दादाभाई नवरोजी इति hmm? अस्तु, अस्तु अपहरणविषयकः सः प्रथमः मनुष्यः सः प्रथमः भारतीयमनुष्यः यः ब्रिटिश पार्लमेण्ट् मध्ये तत् भवने तत्र आङ्ग्लदेशे सह प्रथमतः सह उक्तवान् आसीत् तावत्पर्यन्तम् अन्य कोऽपि न उक्तवान् आसीत् सः एव प्रथमतः तत्र ही वास् द ओन्ली पर्सन् हु स्ट्राटेजैज़िङ्ग् द वोय्स् अगेन्स् ब्रिटिश् एक्स्प्लाटेशन् अस्तु अस्तु भगिनि अधुना सामान्यज्ञानम् अङ्का अङ्कप्राप्त्यर्थ अध्ययनं वदतु एकमेकं कः अर्थबोधः कथायाः विषये वदन्तु बाल्यकाले अस्माकम् अस्माकं जीवने ग्रन्थस्य ज्ञानस्य अवगमनं मात्रं न पर्याप्तमस्ति अन्यविषयान् ज्ञानम् आवश्यकं भवति यः जीवने निदर्शनज्ञानेन कार्यम् करोति सः एव ज्ञानवान् जितः जि जितवान् भवति ज्ञानस्य विषये बुभुक्षा आवश्यकम् आम् बुभुक्षा अव आवश्यकी ज्ञानप्राप्तेः विषयकः अन्यान् वस्तूनां तत्र भौतिक सुखा भौतिकसुखाविषयकः लालसा न भवेत् परन्तु ज्ञानप्राप्तेः बुभुक्षा लालसा उत्तमम् उत्तमं धन्यवादः अधुना रमाभगिनी वीणाभगिनी श्यामलाभगिनी अम्बिकापतिमहोदय अगुष्ठमहोदय वदतु एकमेकं एकम? किमपि वयं पुस्तकं पठति चेत् वयं ज्ञानं प्राप्तुम् अन्यविषये ज्ञा न्या, ज्ञानं वयं प्रा प्राप्तुम् एव मुख्यकार्यं तत् वयं मनः एव आगच्छति चेत् वयं सम्यक् भविष्यत्काले आम् ज्ञानप्राप्तेः विषयके तत्र ज्ञानप्राप्ति परन्तु तत्र यदा धनलालसा वा तत्र प्रसिद्धिलोलुपता एवं सर्वं न भवेत् ज्ञानसङ्ग्रहः इति भिन्नः विषयः तस्य केवलम् अध्ययन इत्युक्ते तत्र पुस्तके यत्किमपि दत्तमस्ति तस्य पठनं कृत्वा कण्ठस्थीकरणं कृत्वा उत्तरान् लिखामि इति भावः न उचितम् इति न उचितः अस्तु सम्यक् अस्ति विना भगिनी भवती वदति वा वाक्यद्वयं हा भगिनी केवलम् अङ्कं प्राप् प्राप्तुं न ना उचितं ज्ञानं प्राप्तुम् एव उचितं भगिनि सत्यं परन्तु अधुना किमस्ति वयं महाविद्यालये वा अस्माकं शालेयजीवने तत् अस्माकं दृष्टि एतादृशी एव आसीत् खलु अङ्कान् कथं परन्तु अधुना वयं भाग्यशालिनः वयं संस्कृतविषयक अध्ययनं कुर्मः तत्र ज्ञानप्राप्तिः इति अस्माकं मनसि अस्ति एवं खलु न अङ्कप्राप्ति वा श्रेणीविषयकचिन्तनम् अस्माकं नास्ति अनन्तस्य विषयः सत्यं के केवलं केवलं तत्र एवमेवं सत्यं सत्यं तदा एव अस्माकं वर्गः तत्र वर्षद्वयम् अभवत् खलु कदा वयं तत्र आरब्धवन्तः आम् तत्र ट्वेण्टि ट्वेण्टि फोर्मध्ये फेब्रुवरी मासे तत्र वर्षद्वयम् अभवत् केवलं ज्ञानसङ्ग्रहाय उत्तमान् विचारान् तस्य आदानप्रदानम् उत्तर उत्तमान् विचारान् स्वीकृत्य तस्य आदानप्रदानं तत् तदर्थम् एव वयम् अत्र सम्मिलितः उत्तमं योग्यं लालसामि आम् आम् तत्र भवेत् संस्कृत अध्ययनस्य वा <Audi> आम् आम् योग्यं योग्यम् अस्तु अम्बिकापतिमहोदय वक्तुमिच्छति वा कथायाः विषये वदति वा अस्ति वा अम्बिकापतिमहोदय अत्र अस्तु गीताभगिनी भवती वक्तुमिच्छति वा <laughs> जनरल् नालेज् अपि स्वीकरणम् अवश् आवश्यकम् पुस्तकस्थातुया विद्या परहस्तगतं धनम् इति वदामि खलु तत् इत्युक्ते तत्र तस्य कोऽपि लाभः नास्ति पुस्तके एवमस्ति पुस्तके एवमस्ति न परन्तु ज्ञानं मनसि ज्ञानं वा ऋभिज्ञानम् आवश्यकं आम् सामान्यज्ञानं चतुरस्रज्ञानम् इति वदामः तत् आवश्यकम् अम्बिकापथि महोदय वदति खलु भवत्याः कक्षायां पाठ्य पाठयति बहूनि mm -hmm. विषयाः अहं स्वीकर्तुं शक्यते आम् बहु बहवः विषयाः तत्र बहवः विषयाः तत्र विषयान् भिन्नान् विषयान् चर्चा अत्र प्रचलन्ति अस्ति अस्माकं वर्गे अस्माकं कक्षां निश्चयेन निश्चयेन बहु सम्यक् बहु सम्यक् धन्यवादः धन्यवादः अधुना भवानेव शान्तिमन्त्रेण समापयति वा कृपया समा स्वस्तिप्रजाप्य परिपालयन्तां न्यायेन मार्गेण महीं महिषाः गोप्रामणेभ्यो शुभमस्तु नित्यम् लोका समस्ता सुखिनो भवन्तु धन्यवादः धन्यवादाः नमो नमः पुनर्मिलामः सर्वे धन्यवादः धन्यवादाः धन्यवादाः धन्यवादः नमो नमः